अथ षट्षष्टितमः सर्गः ततः प्रभाते विमले कृतकर्मा नराधिपः विश्वामित्रम् महात्मानमाजुहावस राघवम् तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा राघवौ च तदा वाक्यमुवाचः भगवन् स्वागतम् तेऽस्तु किम् करोमि तवानघा भवानाज्ञापयतु माज्ञाप्यो भवता ह्यहम् एवमुक्तः स धर्मात्मा जनकेन महात्मना प्रत्युवाचमुनिःश्रेष्ठो वाक्यं वाक्यविशारदः पुत्रौ दशरथस्येमो क्षत्रियौ लोकविश्रुतौ द्रष्टुकामौ धनुः श्रेष्ठम् यदेतत्त्वै तिष्ठति एतद्दर्शय भद्रन्ते कृतकामौ नृपात्मजौ दर्शनादस्य धनुषो यथेष्टम् प्रति यास्यतः एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति देवरात इति निमेर्ज्येष्ठो महीपतिः न्यासोऽयन्तस्य भगवन् हस्ते दत्तो महात्मनः दक्षयज्ञवधे पूर्वम् धनुरायम् विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत् यस्माद्भागार्थिनो भागम् नाकल्पयत मेऽसुराः वराङ्गानि महार्हाणि धनुषाशातयामिव ततो विमनसः सर्वे देवा वै मुनिपुङ्गव प्रसादयन्त देवेशम् तेषाम् प्रीतो भवद्भवः प्रीतियुक्तस्तु सर्वेषाम् ददौ महात्मनाम् तदेतद्देवदेवस्य धनुरत्नम् महात्मनः यासभूतम् तदा न्यस्तमस्माकम् पूर्वजे विभौ अथ मे कृषतः क्षेत्रम् ततः क्षेत्रम् शोधयता लब्धा नाम्नासीतेति विश्रुता भूतलादुत्थिता सा तु व्यवर्धतममात्मजा वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा भूतलादुत्थिताम् ताम् तु वर्धमानाम् ममात्मजा वरयामासुरागत्य राजानो मुनिपुङ्गवा तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् वीर्यशुल्केति भगवन्न ददामि सुतामहम् ततः सर्वेऽनुदयः समेत्यमुनिपुङ्गवा मिथिलामप्युपागम्य वीर्यम् तेषाम् जिज्ञासमानानाम् शैवम् धनुरुपाहृतम् नशे कुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा तेषाम् वीर्यवताम् वीर्यमल्पम् ज्ञात्वा महामुने प्रत्याख्याता नृपतयस्तन्निबोधतपोधना ततः परमकोपेन राजा मुनिपुङ्गवा अरुन्धन्मिथिलाम् सर्वे वीर्यसन्देहमागताः आत्मानमवधूतम् मे विज्ञाय नृपपुङ्गवाः रोषेण महताविष्टाः पीडयन्मिथिलाम् पुरीम् ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः साधनानि मुनिश्रेष्ठ ततोऽहम्भृशदुःखितः ततो देवगणान् सर्वान् सहसाहम् प्रसादयम् ददुश्च परमप्रीताश्चतुरङ्गबलम् सुराः ततो, सुरा। ततो भग्ना नृपतयो हन्यमाना दिशो अवीर्या वीर्य सन्दिग्धाः सामात्याः पापकारिणः तदेतन्मुनिषार्दूलधनः परमभास्वरम् रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रता यद्यस्य धनुषो रामः कुर्यादारोपणम् मुने सुतामयोनुजाम् सीताम् दद्याम् दाशरथेरहम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये बालकाण्डे षट्षष्टितमः